ब्रह्माण्डपुराणं मध्यभागम् अध्यायं तर्टि टु भार्गवचरितं वसिष्ठ उवाच ब्रह्मणोवचनं श्रुत्वा सप्रणम्य जगद्गुरुं प्रसन्नचेतासुभृशं शिवलोकं जगामः लक्षयोजनमूर्ध्वं च ब्रह्मलोकाद्विलक्षणम् अर्थनिर्वचनीयं च योगिगम्यं परात्परम् वैकुण्ठो दक्षिणे यस्माद्गौरीलोकश्च वामतः यदथोध्रुवलोकश्च सर्वलोकपरस्तु सः तपो वीर्यगदी राम तपोवीगदीरामशिवोक ददर्श चुपमें नाकुक संयुत वसंध्योगींद्र सिद्धा पाशुपता शुभा शांदा शांत्सरा जना पारितादमुखैर्वृक्षैः शोभितं कामधेनुभिः योगेन योगिना सृष्टं स्वेच्छया शङ्करेण हि शिल्पिनां गुरुणा स्वप्ने न दृष्टं निःस्वकर्मणा सरोवरशतैर्दिव्यैः पद्मरागविराजितैः शोभितं चाधिरम्यं च संयोक्तं मणिवेदिभिः सुवर्णरत्नरचितप्राकारेण समावृतं अत्यूर्ध्वमं परस्पर्शि स्वच्छं क्षीरनिभं परं चतुर्ध्वरसमायुक्तं शोभितं मणिवेदिभिः रक्तसोपानयुक्तैश्च रत्नस्तम्भकपाटकैः नानाचित्र चित्रविचित्रैश्च शोभितै सुमनोहरैः तन्मधये भवनं रम्यं सिंहद्वारोपशोभितं ददर्शरामो धर्मात्मा विचित्रमिव सङ्गतः तत्र स्थितौ द्वारपालौ ददर्शादिभयङ्करौ महाकरालदन्दास्यौ विकृतारक्तलोचनौ दग्धशैलप्रदिकास्यौ महाबलपराक्रमौ विभूविभूषिताङ्गौ च व्याघ्रचर्माम्बरौ च तौ त्रिशूल पट्टिशधरौ ज्वलन्तौ ब्रह्मतेजसा तौ दृष्ट्वा मनसा भीदकिञ्चिदाः विनीतवद नमस्करोमि वामीशौ शङ्करं द्रष्टुमागतः ईश्वराज्ञां समाधाय मामधाज्ञप्तुमर्हता तौ तु तद्वचनं श्रुत्वा गृहीत्वाज्ञां शिवस्य च प्रवेष्टुमाज्ञां दददुरीश्वरानुचरौ च तौ स तदाज्ञामनुप्राप्य विवेशान्तःपुरं मुदा सिद्धौ खैः सभां द्विजः दृष्ट्वा विस्मयमाभेदे सुगन्धबहुलां विभोहो तत्रा पश्यच्छिवं शांतं त्रिनेत्रं चन्द्रशेखरं त्रिशूलशोभितकरं व्याक्रचर्मवराम्बरं विभूदिभूषिताङ्गं च नागयज्ञोपविदिनं आत्मारामं पूर्णकामं कोडिसूर्यसमप्रभं पञ्चाननं दशभुजं भक्तानुग्रहविग्रहम् योगज्ञाने प्रब्रुवन्दं सिद्धेभ्यस्तर्कमुद्रया स्तूयमानं च योगीन्द्रैः प्रमथप्रकरैर्मुदा वृदं मोर्धना भैरवैर्योगिनी दृष्ट्वा राम तृष्टवा मुदा वामे का दक्षिण नंदीश्वरं महाकालं पीरभद्रं च चत्पुरा क्रोडे दुर्गां शतभुजां दृष्ट्वा नत्वा धत्तामपि स्तोतुं प्रचक्रमे विद्वान् गिरा गद्गदया विभुं नमस्ये शिवमीशानं विभुं व्यापकमव्ययं भुजङ्गभूषणं चोग्रं नृकपालस्रगुज्ज्वलम् यो विभुः सर्वलोकानां सृष्टिस्थितिविनाशकृतब्रह्मादिरूपधृज्येष्ठस्थं त्वां वेदकृपार्णवं वेदानशक्ता यं मनसगोचरं ज्ञानबुद्ध्योरसाध्यं च निराकारं नमाम्यहम् चक्रादयसुरगणाऋषयो मनवोऽसुराः नयं विदुर्यधातत्वं तं नमामि परात्परं यस्यां शां शेनसृजयन्दे लोका सर्वेचराचराः लीयन्ते जुनर्यस्मिं स्तं नमामि जगन्मयम् ह्यस्येषत्कोपसम्भूदो हुदाशो दहदेखिलं सोर्ध्वलोकं सपातालं तं नमामि हरं परं पृथ्वी पवनवह्न्यभो नभो यज्वेन्दुभास्कराः मूर्तयोष्टौ जगत्पूज्यास्तं यज्ञं प्रणमाम्यहम् ध्यलो जगदाधिकर्ता पाद पृथग्रूपथरो जगन्मर्ता पुना प्रपद्ये इत्येव मुक्त्वा सदु भार्गवो मुदा पशाद्रि समीप आदुरः। उद्धाप्य तं वामकरेण लीलया दध्रे तदा मूर्ध्नि करं कृपार्णवः आशीर्भिरेनं ह्यभिनन्द्य सादरं निवेशयामास गणेशपूर्वतः उवाच वामामभिवीक्ष्य चाप्युमाम् कृपार्द्रदृष्ट्याखिलकामपूरकः शिव उवाच कस्त्वं वडोकस्य कुले प्रसूद किं कार्यमुद्दिश्य भवानिहागदः विनिर्दिशाहं तव भक्ति भावतः प्रीदः प्रदद्यां भवतो मनोगतम् इत्येवमुद्रभृगुर्महात्मना हरेण विश्वार्थिहरेण सादरं पुनश्च न त्वा विबुधां पदि गुरुं कृपा समुद्रं समुवाच परशुराम उवाच भृगोश्चाकं कुले जादौजमदग्निसुतौ विभो रामो नाम जगद्वन्द्यं त्वामहं शरणं गतः यत्कार्यार्थमहं नाथ तव सान्निध्यमागतः तं प्रसाधय विश्वेष वाञ्छितं काममेव मे मृगयामागतस्यापि कार्तवीर्यस्य भूपदेः आदित्यम् कृतवान् देव चमदग्निः पिता मम राजा तं स बलाल् लोभात्पादयामास मन्दधीः सा लो दृष्ट्वा गवां लोकं जगामः राजानशोचन्मरणं पितुर्मम निरागसः जगामस्वपुरं पश्चान्मादा मे प्रारुदद्भृशं तज्ज्ञात्वा लोकवृत्तो भृगुर्नः प्रपितामहः आजगाम महादेवह्यहमप्यागदो वनात् मयामः सुदुःखार्तान् भ्रातृन्मात्रा सान्त्वयित्वा स मन्द्रज्ञो जीवयत्पितरं मम अनागदे भृगौ माधुर्दुःखेनाहं प्रकोपितः प्रतिज्ञां कृतवान्देव सात्वयन् मादरं स्वकां त्रिसप्तकृत्वो यदुरस्ताडिदं माधुरात्मनः तावत्सङ्ख्यमहं पृथ्वीं करिष्ये क्षत्रवर्जिताम् इत्येवं परिपूर्णा मे कर्ता देवो जगत्पतिः महादेवो ह्यतोनाधत्वत्सकाणमिहागतः वसिष्ठ उवाच इत्येवं तद्वच श्रुत्वा दृष्ट्वा दुर्गामुखं हरः बभूवा नम्रवदनचिन्तया नः क्षणं तदा एतस्मिन्नन्तरे दुर्गाविस्मिता प्राह सद्भृशम् उवाच च महाराज भार्गवं तपस्विन् द्विजपुत्रक्ष्मां निर्भूपां कर्तुमिच्छसि त्रिसप्तकृत्व कोपेन साहसस्ते महान् बडो हन्तुमिच्छसि निःशस्त्रसहस्रार्जुनमीश्वरम् भ्रो भङ्गलीलयायेन रावणोऽपि निराकृतः तस्मै प्रदत्तं दत्तेन श्रीहरेकवजं पुरा शक्तिरत्यर्थवीर्याच्छतं कथं कन्तुमिच्छसि शङ्करकरुणासिद्धकर्तुं चाप्यन्यथा न चान्यशङ्करात्पुत्र सत्कार्यं कर्तुमीश्वरः अधदेव्या अनुमतिं प्राप्य शम्भोर्दयार्णवः अभ्यधा भद्रयावाया जमदग्निसुतं विभुः शिव उवाच अद्य प्रभृतिविप्र त्वं मम स्कन्दसमो दास्यामि मन्त्रं दिव्यं ते कवचं महामते लीलया यत्प्रसादेन कार्तवीर्यं हनिष्यसि त्रिसप्त कृत्वो निर्भुवां चापि करिष्यसि इत्युक्त्वा शङ्करस्तस्मै ददौ मन्त्रं सुदुर्लभं त्रैलोक्यविजयं नाम कवचं परमाद्भुतं नागपाशं पाशुपदं ब्रह्मास्त्रं च सुदुर्लभं नारायणास्त्रमाग्नेयं वायव्यं वारुणं तथा घान्धर्वं गारुडं चैव दृम्भणास्त्रं महाद्भुतं गदां शक्तिं च परशुं शूलं दण्डमनुत्तमम् शास्त्रास्त्रग्राममखिलं प्रहृष्टः सम्बभुवः नमस्कृत्य शिवं शान्तं दुर्गां स्कन्दं गणेश्वरं परिक्रम्ययययौ रामपुष्करं तीर्थमुत्तमं सिद्धं कृत्वा शिवोक्तं तु मन्त्रं साधयामासनिखिलं स्वकार्यं भृगुनन्दनः निहत्य कार्तवीर्यं तं ससैन्यं सकुलं मुदा विनिवृत्तो गृहम्प्रागात्पितु स्वस्य भृगुद्वहः इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे भार्गवचरिते द्वात्रिंशत्तमोऽध्यायः ओम्